श्रीहरे नमः अत एकोनचत्वारिंशोऽध्यायः श्रीशुक उवाच सुकोपविष्टपर्यङ्के रामकृष्णो रुमानितः लेबे मनोरथान् सर्वान् पतियान् स सकारः किमलभ्यं भगवति प्रसन्ने श्रीनिकेतने तथापि तत्परा राजन् न हि वाञ्छन्ति किञ्चन सायन्तनासनं कृत्वा भगवान् देवकी सुतः सुहृत्सु श्रीभगवानुवाचा तसंज्ञागतः स्वागतं भद्रमस्तु वः अपि स्वज्ञातिभन्धूनाम् अनमीवं मनामयं किं नु न कुशलं पृच्छे ये दमाने कुलामये कंसे मातुलां ग स्वानाम्नस्तत्प्रजासु च अहो अस्मदभू भूरि पित्रोर्वृजिनमार्ययो भोः यत् हेतोः पुत्रमरणं यत् हेतोर्भन्धनं तयोः तिष्ट्याद्यदर्शनं स्वानां मह्यं वसौम्यकाङ्क्षितं सज्जातं वर्ण्यतां तात तवागमनकारणं श्रीशुक उवाच पृष्टो भगवता सर्वं वर्णयामास माधवः वैरानुभन्तं यदुक्षु वसुधेववधोत्यमं यत्सन्देशो यथर्थं वाधूतः सम्प्रेक्षितः स्वयं यदुक्तं नारदे नास्य स्वजन्मा नगधुन्दुबेहे श्रु वा क्रूरवचकृष्णो बलश्च परवीरः प्रहश्च नन्दं पितरं राज्ञा आधिष्टं विजज्ञतुः गोपां समाधिसत्सोऽपि गृह्यतां सर्वघोरशः उपयानानि गृहणीध्वं युज्यन्तान् सकटानि च यास्याम सो मधुपुरीं यान्ति जानपदा किल एवमाघोषयच्छुत्रा नन्दगोपस्व गुकुले गोप्यस्तास्तदुपस्तृत्य बभूवुर्व्यतिताभृशं रामकृष्णौ पुरीं नेतुमक्रूरं व्रजमागतं काश्चित्तत्कृतहृत्ताप संस्तद्धुकूलवलय केशग्रन्त्यश्च काश्चन अन्याश्च तदनुध्यान निवृता शेषवृत्तयः लोकं लोकम् आत्मलोकं गता इव स्मरन्त्यश्चापरा आनुरागस्मितेरिदाः हृतिस्पृसच्चित्रपधाकरः सम्मुः स्त्रियः गतिं सुललितां चेष्टां स्निग्धहासावलोकनं शोकापकानि निर्माणि प्रोद्धामचरितानि चिन्तयन्त्यो समेता शङ्कशः प्रोचो अश्रुमुख्योश्च्यु तथाशया गोप्यवोचो अहोविदादस्तव प्रणयेन देहिनः तांश्चाकृतार्तान् वियुनङ्क्षपार्थकं विक्रीडितं तेर्भकचेष्टितं यता यस्वं प्रदर्श्यासितकुन्तलावृतं मुगुन्तवक्त्रं सुखपोलमुन्नसं शोकापनो तस्मितलेशसुन्दरम् करोक्षिपारोक्षमसाधुते कृतं क्रूरस्त्वम् अक्रूरसमाख्यया स्म नश्चक्षूर्हि दत्तं हरसे पदाज्ञवत् येनैकदे से किल ननन्दुः सुनुक्षणभङ्गसौहृत समीक्षते न स्वकृतातुराभत विहाय गेहान् स्वजनान् सुतान् पतीन् ददास्य मद्धो भगता वप्रियः सुखम् प्रभात रचनीयमाशिष सत्या बभूवो पुरयोषिताम् ध्रुवम् यासप्रविष्टस्य मुखम् व्रजस्पते पास्यन्त्यपाङ्गोत्कलितस्मितासवम् तासां मुकुन्दो मधुमञ्जुभाषितैर्गृहीतचिस्तः परवान् ग्राम्या स लज्जस्मितविभ्रमैर्भ्रमन् अद्य ध्रुवं तत्र दृशो भविष्यते दासार्गभोज अन्तकवृष्णि सात्वता महोत्सवश्रीरमणं गुणास्पदम् द्रक्षन्ति येषाध्वनि देवकीसुतं मयि तत्वितस्या करुणस्य नाम पूत् अक्रूरयित्येतत्तव सोऽसावनास्वास्य सुदुःखितं जनं प्रियात्प्रियं प्रियं नेषति पारमध्वनः अनार्द्रधीरेश समास्तितो रथं तमन्वमी दैवं च निवारयामः समुपेत्य माधवं किं नो करिष्यन् कुलवृद्धबान्धवाः नीतास्मनक्षणमिव क्षणधा विनाथं गोप्यः कथं न तितरे मतमो धुरन्तं योऽन्यक्षये चित्तं क्षिणोत्यमुं एवं विरहातुरा वृशं व्रजस्त्रियः कृष्णविशक्तमानसाः विसृजलज्जारुतु स्म सुस्वरं गोविन्दधामोदर माधवेति वितर्यत अक्रूरश्चोदयामास कृतैमैत्रादिकोरतम् गोपास्तं अन्वसज्जन्तनन्धात्या सकटैस्ततः आधायोपायनम् भूरि कुम्भान् घोरसम्भृतान् गोप्यश्च दयितम् कृष्णम् प्रत्यादेशं भगवत काङ्क्षन्त्यश्चावतस्तिने तास्तता तप्यतिर्वीक्ष्य स्वप्रस्थानेयधूत्तमः तान्त्वयामास सप्रेमै आयास्य इति धौत्यकैः यावदालक्ष्यते केतो त्रेणोरथस्य अनुप्रस्थापितात्मानो लेक्यानीोपलक्षिताः तानि रासानिवृतोर्गोविन्दविनिवर्तने विशोका अहनि निन्योर्गायन्त्यप्रियचेष्टितं भगवानपि सम्प्राप्तो राम अक्रूरयुतो नृप रथेन वायुवेगेन काळिन्दीम् अगनासिनी तत्रोपस्पृश्य पानीयं पीत्वा मृष्टं मणिप्रभं वृषण्डमुपव्रज्य सरोमो रतमाविशत् अक्रूरस्तावुपामन्त्र्य निवेश्य चरतोपरि काळिन्द्याहृतमागत्य स्नानं निमस्य तस्मिन् सलिले जबन् तावेव दतृशे क्रूरो रामकृष्णौ समन्वितौ तौ कथमिह सुतावानकधुन्दुभेः तर्हि स्वित् शन्दनेनस्त युत्युन्मज्जव्यचष्टसः तत्रापि च यथा पूर्वमासिसौ पुनरेव सः यमज्जद्दर्शनं यन्मे वृषा सलिले तयोः भूयस्तत्रापि सोद्राक्षीत् स्तूयमानम् अहीश्वरं सिद्धचारणगन्धर्वैर् असुरैर्नतकन्धरैः सहस्रशिरशं देवं सकष्ट्रपणमौलिनं नीलाम्बरं बिषश्वेतं शृङ्गैश्वेतमिव स्थितं तस्योत्सङ्गे घनश्यामं पुरुषं चतुर्भुजं शान्तं पद्मपत्तारुणेक्षणं चारुप्रसन्नवदनं चारुहासनिरीक्षणं सुभ्रून्नसं चारुकर्णं सुखे पोलारुणाधरं प्रलम्ब कम्बुकण्ठं निम्ननाभिं वलिमत्पल्लवो धरं बृहत्कटितटश्रोणी करभोरुध्वयान्वितं चारु जानुयुगं चारु जङ्गायुगलसंयुतं तु गुल्बा गुणनखव्रात दीति तेभिर्व्रतं नवाङ्कुल्यङ्गुष्ठदळैर्विलसत्पादपङ्गजम् सुमहार्गमणिव्रात किरीटकटकाङ्गतैः कटिशूत्रब्रह्मसूत्र आरनूपुरकुण्डलैः प्रजामानं पद्मकरं शङ्खचक्रगदाधरं श्रीवत्सवक्षसम्प्रजा कौस्तुभं वनमालिनं सुनन्दनन्दप्रमुखै भाषतैः सनकादिभिः सुरेशैर्ब्रह्मरुद्राध्यैर्नवभिश्च द्विजोत्तमैः प्रह्लादनारतवसु प्रमुखैर्भागवोत्तमैः स्तूयमानं पृथग्भावैर्वचोभि अमलात्मभिः श्रिया पुष्ट्या गिराकान्त्या कीर्त्या्ये लयोर्जया ्या मायया च निषेवितं विलोक्य शुभ्रुशं प्रीतो भक्त्या परमया युतः कृष्यत्तनूरुहो भाव परिक्लिन्नात्मलोचनः गिरागद्गतया गत, स्तौ क्षीत् सत्त्वमालभ्य सात्वतः प्रणम्य मूर्ध्ना व्यहित कृताञ्जलिपुटः शनैः श्रीमद्भागवते महापुराणे दसमस्कते पूर्वादे अक्रूर प्रतिनेंशोध्याय गोपिका जीवनस्मण गोविंद गोविंदा, गोविंदा सद्गुनाथ महाराज के जय